कृष्णयजुर्वेदतैत्तरीयारञ्जके पञ्चमः प्रश्नः प्रारम्भः ॐ शान्तिः शान्तिः देवा वै सत्रमासदार्थिपरि संयुषः कामाः हे ब्रवन्समंश अक्षाद सर्वेषां नस्तत्सहा सदिति तेषाम् कुरुक्षेत्रम् वेदिरासीद तस्यैकाण्डवो दक्षिणाद्ध आसीदमन्तः वैनज्जगनार्थः परवरुत्कः तेषाम् अकम् वैष्टवंशाक्षद धन्यकामयता तेनापाक्रामद तम् देवान्वायन्न यशो बलरुत्समानाः तस्यान्वाकरस्य सव्यार्थनुरजा यथा दक्षिणादिशः तस्मादिष जन्मम् पुण्यजन्म यज्ञजन्मा हि तमेक वसन्तम् महोनाभ्यदृष्णवन् तस्मादेकमिष जन्विनम् महवानिष जन्वानाभ्यदृष्णवन्ति सोऽस्मया एकम् मासन्वम् स्मे दव्यम् तेष्कभ्या तदपो वितृन्धामेयी तस्मादुपदी कायत्रक्वजनन्ति तदपोपितृन्दी वारे वृद्धा तत्सन् तस्य प्रमाणकोशरपदवर्तयत यत्प्रावर्तत तत्प्रवृद्ध्यस्य प्रवर्गत्वम् घर्मत्वम् महतो वीर्यमवर्तदिति तन्महावीरस्य ्राज्ञः सम्राट्रम् देवता देवाष्णायज्ञेन यजमानाः नातिशोभारुन्धरा सुवर्गम् लोकमव्यजयन् हे देवाश्विनावृन्नैस्तस्य शिरप्रतिदत्तमिति तावब्रुताम्बरम् वृणावै ग्रह एव नावत्रापिष्यतामिति ताभ्यामेनाश्विनवर्णन् तावेतव्यज्ञस्य शिरः प्रत्य ता सह एष्णा यज्ञेन यजमानाः अवादिषो रन्धर अभिजवर्क्यन् लोकमयन् यत्र यज्ञम् प्रभक्ति यज्ञस्यैव प्रतिधाति तेन स हि एष्णा यज्ञेन यजमानः अवादिषोरुन्धे अभिजवर्गन् लोकम् जेति तस्मादेशानप्रवया ष्पादः प्रसवावृन्धे प्रतिष्ठति छन्दादेवेभ्यो वाक्रामन् मम भागानि हव्यम् रक्षाम इति तेभ्यः एतच्चतुर्गृहीतमधारिन् मो वाक्याय याद्यायै देवदायै चतुर्गृहीतम् ज्योति ीणानिर्वेदेहे क्षितः प्रदद्याद्मजुयाद् यज्ञरन्तर्याद्वैर अविष्कृत मीयमान प्रददाति यज्ञपुरन्तरेति ीश्यस्य यज्ञस्य शिरः सम्भरति योदुम्बरीव यज्ञस्य शिरः सम्भरति यद्वैनवीमैवेणो एत यज्ञस्य शिरः संहरति यद्वैन्द्री वा एवावन्धे देवस्य अश्विनामित्याह अश्विनो हि देवानामध्वर्योगास्ताम् उष्णास्ताभ्यामित्याहे वा एषा ैवे सौमृदेत्याह यज्ञो वै सौमृदावीरन्दर्यम् मङ्गत्याः यज्ञस्य शिरस्संभरति मघा वै मखः यज्ञस्य शिरयिवा वैद्राः मखायित्वा मघस्य श्रीष्णैत्याः मे लोकाः येभ्य एव लोकेभ्यो यज्ञस्य शिरः सम्भरति अपरितादेव यज्ञस्य भारो भवति ऊर्जमेव रसम् पृथिव्या अवन्धे तथो श्रोत्रमेव श्रोत्रग्रहे पृथिव्याः यद्वल्मीकः एवं वेद इन्द्रमदाक्रमदा इति भवन्ति यावानेवंशुजा कृष्णार्जुनेन सम्भरति आरण्यानेव पुशोंशु चात्वैः तस्मात् पुरुषोनाम् प्रजायमानाम् आरण्यं सः सुजाः सम्भरति मेवास्मिन् दधति रुद्धतिगतोपो निदध दशान्ति मरन्ति तेज एवास्मिन् दधाति मधत्वा मधराकरोत्विह ब्रह्मणैवास्मिन् राम्याणां पात्राणां कपाले ईश्वरं सृजयेत् राम्यानु पात्राणि शापयेत्मकपालेश्वरं सृजयति एतानि वा अनुपजीवनीयानि प्रिया तनुः तान्येव सृजा कृष्णार्जिनस्य कृष्णार्जिनम् यज्ञेनैव यज्ञमौसम्प्राण्यात् प्राणान् प्राणानाहङ्गोपीथाय अप्रवर्गम् च किञ्चान्तरेयात् निरन्तरे याद् याद। दुश्चर्माः स्यात् तस्मान्नान्तरायम् आत्मनो गोपीठाय वेणा करोति हे गो वै वेणु तेऽप्रवृत्यः एतस्यैपदे मखस्य शिरोजीत्याह यज्ञो वै मखः तस्य तस्मादेवस्य पदे अथो त्वा छन्दसा करोमीत्याः येषाम् लोकानामाप्ती छन्दोभिः करोति वीर्यम् वै छन्दागुधि वीर्येण इन्दंग करोति दिव्यावृत्ति यन्दंग करोति प्रजावदनाय मुखेण संविदम यन्दंग करोति इन्यावर्षा संविदम यन्दंग करोति यथात्रै वृक्षे बीजं बीजसंविदम अपरगं करोति अपरिमेद्रावृत्ति परिगृहं करोति सूर्यस्य ह्रदाश्रयेत्याह यदायुधेवैतद अश्वसगेन्धोपयति मैत्र्योऽस्विदुर्प्रसूदेव मध्यमानां कुध्व्यामाशादिशा श्रावणेत्याह अस्माकं यज्ञसर्वादिशानुविभादि अत्यष्टब्रह्मभवोद्भस्ते छत्रवस्तुमित्या उपरिष्टेति ईश्वरो वा एषो अंधो भवितो यप्रज्ञमनिक्षदे सूर्यस्य प्राक्छुदान् मी क्षयच्छक्षुः गोविதாய अद्वेयेत्वा साधवेत्वा शुचितेत्वा मुच्यतेत्या इमां करोमन्दरक्षमु साधो मेत्याः विषयम्ब्रह्मवर्चसेन पर्योतिरादन्यस्य भूयाद् विषयम् परियोहति पशुभिम् पर्योहति अतुर्गम् वा क्रमणाम् आच्छ्रुणति देवत्राकः क्रमम् वा एतद्वय क्षीरम् क्रमेणैव यथा व्यावृत्तिः छन्दोभिराच्छणति छन्दोभिर्वा एषोभिरेव सन्धागस्याच्छणत् वावित्याः वृन्दे छन्ध्योजमित्याः ऊर्जमेवावृन्दे सन्धिहविः महादर्घर्ममभिष्टिहीत्याः एष वा एतर्हि बृहत्पतिः यद्ब्रह्मा तस्मा एव प्रतिप्रोचप्रचरति आत्मना मखायत्वेत्याह एता वा एतस्य देवताः नाभिरेवै न गोसमर्थयति वदन्ति विप्रोक्षति एष एवास्मिन् ददाति अभिपूर्वम् प्रोक्षति अभिपूर्वमेवास्मिन् देशो ददाति विप्रोक्षति एतत् यज्ञस्य यत्प्रज्ञः ऊर्मुञ्जाति भूज्यैव यज्ञस्य शिरः समर्थयति प्राणाहुतीहोति प्राणानेवेयजमाने दधाति सप्तजुहोति सप्तवैदेश्याः प्राणाः प्राणानैवास्मिन् ददाति देवस्वा सवितामध्वानकृत्याः तेज शैवेन मनक्ति पृथिवीन उपतस्था यस्वेति हिरण्यमुपास्यति तस्यानुदिदाय शो वा एतद्यज्ञस्य देवताः क्लवानादीप्योपास्यति देवतास्तस्येषा ब्रह्मवादिना वदन्ति एतेवावदर्त्य एतदृशपूर्णमासयोः रथगताहोदायजमाना यादृशो पुरस्तादासी खलु वा ृन्धे पुरस्तादाः सजातः प्राणम् द्रष्टात् श्रोत्रमुत्तरतः विधृतिमपरिष्टात् प्राणानेवास्मै समीचोधादि ईश्वरो वा एष दिशोऽनोन्मदितोः इन्दुशोऽनुव्यास्थापयन्ति मनोरश्वादि भूरिपुत्रेतिमामभिवशति यम् वै मनोरश्वा भूरिपुत्रा िगुंधेगो सायीवास्वी शिरोवा एदर्ग्य असोरिप्रवृग्य महामेवाश्पर तस्मा मुस्म के पोढ़ सृष्ट से भाएवृंधे द्वादशवत्वत्सरमेवृंधे अस्य त्रयोदशो मास इत्याहो यत्रयोदशः परिधिग्भवति तेनैव त्रयोदशम् मासमवृन्धे अन्तरिक्षस्याद्धिरसीत्या हव्यावृत्तिवेत्युपरिष्टाध्यमधिभयदपरिगृह्णादि अर्हन्विभर्षिताय गानवेत्याः जागृतमसीति धवित्रान्यादत्ते छन्दोभिरेवेनान्यादत्ते प्राणो वै मधु प्राणमेव अथो रक्षपपहत्य षट्सम्पद्यन्ते षट्वाः ऋष्वेव प्रतिष्ठन्ति यो वै घर्मस्य प्रियान् पर्वमाक्रामदि श्चर्मा वै सभवति एषः वा अस्य प्रियान् पर्वमाक्रामदि एताव्यस्योग्रदे गोराजनिराचक्रामा तवै स दुश्चर्मा भवत् तस्मात् त्रिष्परीत्यम्बरीयाद् आत्मनो गोभीथाय प्राणाविधवित्राणि अव्यतिशम् गन्धोऽन्वन्ति प्राणामव्यतिशङ्कान्वन्ति स्वर्गस्य लोकस्य समष्टिन्वन्ति तस्मादेव अग्निश्वावः पुरस्ताद्रोजयत्रै नः पुरस्ताद्रोजयदिगा यत्रेण छन्दसा समारुचितो रोजयेत्याः आदिशमेन्दसेत्याह इन्द्र <Sess> <Sess> एवैनो वृत्रैत्यक्षणतोरोचयदत्रैष्टुभेन छन्दसा समारुच्यतोरोधियेत्याह आदिशमेवैतामाशास्ते वरुणस्त्वादित्यैः पश्चाद्रोचयितुजागते न छन्दतेत्याह अरुण एवैनमादित्यै पश्चाद्रोचयि द्विजागते न छन्दसा समारुचितोरो जयेत्याः आशिष मे अबीतामाशास्ते दानस्वा मारुतो मरुद्भिरुतो रोचयत्वानुष्ठुभेच्छन्दसेत्याः मरुद्भिरुतो रोचगत्यानुष्टुभे नन्दसा समारुचितो रोजियेत्याः आशिषमे अबीतामाशास्तेष्टाद्रोचिरुपान्ते न छन्दसेत्याह बृहस्पतिरेवैरुपरिष्टा त्रोचैरिपान्तेन छन्दसाै कामाशा आस्ते रोचितस्वन्देवेश्वरीत्याः रोचितो रोचयाहम् मनुष्येष्वित्याह रोचित एवैषु मनुष्येषु सम्राट् घर्मरुचितस्वन्देवेष्वायुष्मागुस्तेजस्वी ब्रह्मवर्जस्य रजितो ह्ये च देवेष्वायुष्मागुस्ते धस्वी ब्रह्मवर्त्यसी रजितोऽहम् मनुष्ये एष्वायुष्मागुस्ते धस्वी ब्रह्मवर्त्यसी भूया समित्याः जित एवैष मनुष्ये एष्वायुष्मागुस्ते धस्वी ब्रह्मवर्ची भवति चेहिमैरुगित्याः आदिशमेवैतामाशारस्ते तञयदेतेर्यर्भिररोचयित्वा जितोघर्मैति प्रब्रूयाद् अरोचिको ध्वर्युः स्याद् अरोचिको यजमानः अथैतेन मेतेर्यजुद्भिरोचयित्वा घर्मैतिप्राः रोचिको ध्वर्युभवति रोचिको यजमानः शिरो वा एतद्यज्ञस्यप्रवृत्क्यः ग्रीवा उपसदः पुरस्तादुपसदाम् प्रवृम् प्रवृत्ति गीवास्वेव यज्ञस्य शिरःप्रतिदधाति त्रियःप्रवृत्ति प्रिय इमे लोकाः येभ्य एव लोकेभ्यो यज्ञस्य शिरोवृन्धे षट्सम्पद्यन्ते षड्वा रवः एव यज्ञस्य शिरोवरन्धे ृणक्ति द्वादशमासाः संवत्सरः संवत्सरादेव यज्ञस्य शिरोवृन्धे चतुर्विंशतिः सम्पद्यन्ते चतुर्विंशति एव यज्ञस्य शिशिरोवृन्धे अथो खलु सकृदेव प्रवृत्त्यः एकविंशः अग्निष्टोमे प्रवृणक्ति एतावानु यज्ञः यावानग्निष्टोमः यावानेव यज्ञः तस्य शिरप्रतिधादि मोक्षे प्रवृञ्जात् प्रजा वै पशवमुक्तानि ये दुःखे प्रवृञ्ज्यात् प्रजां पशोनस्य प्रवृणक्ति पृष्ठानि वा च्युतम् शावयन्ति पृष्ठैरेवास्माच्युतञ्चावयित्वा वृन्धे अवश्यं गोपामित्याह प्राणो वै गोपाः प्राणमेव प्रजा सुभियादि अवश्यङ्गोपामित्याह असौ वा आदित्यो ेव प्रजानाम् गोप्तारम् कुरुते निपद्यमानमित्याह्येषपद्यते आ च परा च पतिभिश्चरन्तमित्याह आजह्येषपरा च पतिभिश्चरति सद्विशोचीर्वसानीजीष्टेष विशोचीश्ववसानः प्रजा अभिविपश्यति आवरीवर्तिभवनेष्वन्दरित्याह आह्येषुभवनेष्वन्दः अत्र प्रावीर्मधुमाध्वीभ्यान्मधुमाधोजीभ्यामित्याह आसन्दिका देवास्मा ऋतुयति समत्निरत्न्याह गैष्मा देवास्मा ऋतोकल्पयति समग्निरत्नतेत्याह रत्नेवच्छते स्वाहास्तपसा गतेत्याह पूर्वमेवोदितम् उत्तरेणाभिगृणादि दत्तादियोजसः पृथिव्या इत्याह वार्षिका वेवास्मा ऋतोकल्पयतिः शारदा देवास्मा ऋतोकल्पयति देवेशोत्रा यच्छेत्याह होत्राभिरेवेमान् लोकान्सन्दधादि सुश्वासाम्भुवाम्बदैत्याह हैमुन्दिका वेवास्मा ऋतो गल्पयति देवश्रोस्वन्देवघर्मदेवान् पाहीत्याह श्रीशिरावेवास्मा ऋतो गल्पयति भोजाम् वाचपस्मै नियच्छदे वायुवमित्याह या वैमे ध्यावाक सा तु भोजाः तामेवावृन्धे दे। गद्भो ीनामित्याह प्रजावै मतयः तासामेष एव तस्मादेव माह मदिप्रजानामित्याह न दृश्येष प्रजानाम् मदिः कवीनामित्याह न दृश्येष कवीनाम् सन्देवो देवेन स वित्रादिष्टसमो सूर्येण रुक्तेत्याह अमञ्जैवादित्यम् प्रद्यन्तसमोषा अस्ति आयुतास्तमस्मभ्यम् गन्मवच्चोदासीत्याह आशिषमेवैतामाशा आस्ते कृतानो बोधयत्याह बोधयत्येवैनम् अवकाशा भवन्ति पत्नी दशमः अथोदशा विराट् अन्नम् विराट् विराजैवान्नात्यमुन्धे यज्ञस्य शिरो ओक्षद्यता देवाहोत्राभिप्रत्यदधु पृत्विजोवे क्षन्दे एतावि होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति रुचितमवे क्षन्दे जिताद्वै प्रजापतिः प्रजा असजिता प्रजा नागोष्ठीतमवे क्षन्दे जिताद्वै पर्त्यन्याः पर्त्यनो भवति प्रजा एषन्ते क्षन्दे जितं वै ब्रह्मवर्तितं ब्रह्मवर्तिज नो भवन्ति सर्वमायुयन्ति न पत्न्यवे क्षेत यत्पत्न्यवे क्षेत प्रजा एत ृते मासी प्रजा नृतहरित्याः प्रजा प्रजायन्ते देवस्य देवानाम् धर्यो आस्ताम् ेवीत्याह एतानि वास्यै मनुष्यनामानि मनुष्यनामी रेवी नामाह्वेति षट्सम्पद्यन्ते षट् वाी नामाह्वे हरित्याह यथाविदेवैत वायुरश्रीडैत्याह वायुदेवत्यो वै वृत्सः ऊषात्वोपावसृज कूष्णा वै देवतया वृषः देवत स एवतयोपावसृजति अश्विभ्याम् प्रदापयेत्याह अश्वि देवानाम् भिजो ताभ्यामेवास्मै भेषम् करोति यस्ते स्तनस्य देवीनाम् अस्य घर्मंशोऽस्य घर्मम् पाहि घर्माय सिगुंशेत्याह ृत्याः देवानाम् बृहस्पति ब्रह्मदेवीनामपसीदति दानवस्थमेत्याह मेध्या नैवीनाम् अश्विभ्याम्वस्वसरस्वतीवस्वभूष्णे बिन्वस्व बृहस्पतेवस्वेत्या एताभ्यो ह्येषा देवतान्वदे इन्द्राय भिन्वस्वे इन्द्राय भिन्वस्वेन्द्रमेव इति दे तस्मादिन्द्रो देवतानाम्भोष्ठाक्रमः छन्दो देवैना दत्ते सोजो भागेनो भवेही इत्याह ेवैनम् भागवकः अश्विनो वा एतज्जज्ञस्य शिरप्रसिदुताभ्यामेव गोर्वाभ्याम् षड्विता इति अश्विभ्यामेव गोर्वाभ्यां षड् अश्विनामेव भागधेय समर्थयति कारो भवति रश्मये वृष्टिवलयेत्याह स्य पुण्योश्मि सवृष्टि तस्मा एवैदम् ज्योतिवैराम् सूर्यस्यीभ्याम् परिगृह्णामीत्याह जावापृथिवीभ्यामेवैरम् परिगृह्णाति अन्तरिक्षेपैच्छामीत्याह अन्तरिक्षे नैवति एतम् तेजो न प्रेहीत्यामारिक्षन्मा हि पृथिविस्पृण्मा हिमुदाय सवरतयवरमेय छर्वङ्गय छरिवामा बाहित्यः पादस्य मे वितामशास्ते शिरोवा एवदक्नसा अप्रवक्ता आत्मवायुः मतिच्च आत्मान्यः आत्मन्ने वैद्यस्य सचरप्रतिदहाले अनवानं प्राणानां उद्दत्ते पञ्जाः मान्दो इज्ञः चवाने विज्ञयत् ेनहोति सोमायित्वा ऋतु स्वाहेत्याः चन्द्रमावै सोमोर्तवान् तस्मा एवेन जहोति वरुणायित्वा दित्यये स्वाहेत्याः अश्व वरुणादित्यवान् तस्मा एवम् जहोति जुहोति इमायत्माङ्ग्रस्वदे स्वाहेत्याः प्राणो विमाङ्ग्रस्वान् गृमान् तस्मा एवम् जुहोति एताभ्य एवम् देवताभ्यो जुहोति च्योदिज्योतिषास्वाहारातिशताच्योदिज्योतिषास्वाहेत्याह आदित्येवत्याह विश्वानेव देवान् व्रीणादि अथो दृष्ट्या एव विलम्बादि विश्वान् देवानयाढ्येत्याह विश्वानेव देवान् भागधेयेन स्वाहाकृतस्य धर्मस्य मधोऽ अश्विना वेवभागे नेवाकः अश्विनादिवान्याः अश्विना वेवभागे नृथिवीमगुधा तामित्याहा स्वाहेन्द्रवाहेन्द्रह इन्द्राय पुरो हुगिरे आश्राव्याः घर्मस्य यजेति पुषट्कृते जहोति अक्षरा अनेजे जले स्वरागते धर्मलभायनमश्नेत्ताः फोरमेवादितं उत्तरे नाभिघणादि अनुवाञ्जावा वृद्धिं आनन्सह दामिच्छामि च अनुत्ति तं बाग्नेयं वारुणं नमो देवोकृत्म्या इच्छाह ेन लोके प्रतिष्ठापयति पञ्च प्रति गच्छेत्याः इष्टे वैनं प्रतिष्ठापयति देवान् गच्छोन् गच्छेत्याः महेष्वेव दे मेधन्ते अन्तः ते रसोस्कन्धाय इशमेव निजमाने दधा यजमाजमा सामे अस्मिन् देश्चाय विविद्यतः आत्मनयै विताम समाशाः अस्ते ऋषिः इत्वा ज्ञायेत्ेन्द्रियायत्वा गोतेय पत्याः दायले विदृ धर्मादि सर्मामे यस्मे ब्रह्मा द्वारयेत्yah ब्रह्मन्नेवे प्रतिष्ठितवेदे ने नेद्ववादस्तन्यादि नेत्रे वेदरेण अमोषत्वा प्राणे सद्यं मिमुना सहनर्थं गच्छेत् कृयाद्यं दिश्याद मेवतेष्टि तेने तेन सहर्थङ्गमेति उष्णेश्वरसे स्वाहेत्याः या एव देवताहृतभागाः ताभ्य एवेनम् जुहोति ग्रामभ्य स्वाहेत्याः का एवान्तरिक्षेवाचः ताभ्य एवेन जुहोति ृदेभ्य स्वाहेत्याः स्वाहेभ्यो स्वाहे गन्म्येवेन ज्योतिरायुतो स्वाहेत्याः रुद्रमेव रुद्रन्निरोदयते निर्वन्वीक्षेत चक्षुरस्य प्रमायिकीक्षमीपरोमान्न स्वायुर्वेदावृत्तिरा स्मिन् वर्चो ददाति अपि बलमारात्रियास्मिन् वर्चो ददाति अज्ञोचवादिना वदन्ति जषाजुहुयात् अयथापूर्वमाहुतिजुहुयात् जुहुयात् अद्य पराभवेत् भूस्वाहेत्येव होत्तव्यम् यथा पूर्वमाहुति एते ये प्रवर्गेण न्दरते संवत्सरन्नीयात् रामा न रामामुपेयाद् न मृण्मयेन पिबेद नास्य रामोच्छिष्टं पिबेद ते देवा ते देवा देवा ते तस्मा ते तस्मा सौर्ये तेज एव तत्सेवासुराभ्रातिशौर्ये ब्रह्म संयत्किञ्चदिवाकीत्यम् कार्यम् तेजसोपीठाय तस्मादेताभ्राति शौर्यस्येत्याहो स्वाहात्मा सूर्यस्यैसारक्षत्रेभ्यै छंदोवाज्यु जम वैजेद्या दिवस्वाह दिवोकान्दार प्राणस्य त्वा परस्पाया श्रे प्राणान्दाधार शिरो वा एतत् दक्ष प्रत्य यज्ञस्य केसरोरेर प्राणजमुत्लासेति प्रस्तादेव यज्ञस्य शिरः प्रदितधाति प्राणजमुत्लासेति तस्मानतादादित्यस्य प्रसाददेवि शबोमैमान् दवित्राण दृष्टियं चन्वाहरन्ते साआत्मनमेवेन गोसतमं करोति साआत्मा उष्मिनलोके भवति एवम् वेदा अवन्मरणवन्दि पूर्वावन्मरा पूज्येववन्दे पद्मावन् नृत्यया यज्ञलोक्षागौ श्रीगाउँ संदे पुरुषः पुरुषो निधनमवैदि पुरुषः पुरुषो हि रक्षस्वी रक्षरामवहत्य अवसुदापयेद एवोचतिसु ओमहेसुदापयेद यत्नास्मदशो पनासुतदिद एवसुदापयेद हिरण्यदायोद्वाहिदे अवमे हिरण्यम् अवमे एवयम् बृष्ठावैदे अल्पोरसिनिदायै इति त्रिपर्वञ्जनं दर्येदि त्रिवृत्तवाक्ये यावानैवाक्ते तस्य सुदेघो समयेति त्रिपमपर्येदे क्षर्षमबद्यन्दे त्रद्वार्दवा अदभिरेवा सस्युदेघो समयेति चतुस्त्रकर्माभ्यनदस्येत्याह एवम् वेदना स्यैतन्महिमानगोन् बन्धुताम् व्याधिष्ठे समायुशासम् प्राणे लेत्याहीसूयोम इत्याहेषः अचिक्रद्दृशाहरित्याहारेषाहरिः मानमेकान दर्शयित्या सौत्येवे नमेतद चिदसमद्रिया नित्यहा स्वामेवि निञ्जो लिंगमयति नमस्यस्तमामाहियुसेत्या हियं सई विश्वावधगोतारं धर्ममित्यहा ये दे दे देवा सक्रीमानस्जान गर्यन्ते ये देवा सीदनाप्यायते विश्वावसविदन्मात्मित्यहा पूर्वमेवाजिदम उत्तरेनाभिग्रादि बो हियाहि मानोदिहेन आव्यादित्याह स्मै कल्पयतिपागाह्येष्यो मनुष्यानित्याह मनुष्यो हि एषदन् मनुष्यानुपैदि ईश्वर वै प्रवृत्ति सह प्रजया सह राजस्पोषेणेत्याह ौरीभ्यामृभ्याम् पुनरे त्रगार्भवत्ये ज्योति अयम् वै लोको गार्भवत्यः अस्मिन्नेव लोके प्रतिष्ठति तेनैव स्वर्गाल्लोकान्वे देवाशुक्रन्भवत् तान् शुक्रियाणि सामान्य भवन, यः एतया ऐप्यः तद्देवानां वयः तस्माद्यत्र एष है साक्षात्प्रवर्ग्यम् उत्तरवेद्यामुत्तेजस्रामस्य ते लोबा ते उत्तरवेदि तेजप्रवर्ग्य तेजसैव तेजस्रमर्थयति उत्तरवेद्यामुत्वा स एतन्नकामस्य श्रीलोबा एतद्यज्ञस्य यत्प्रवर्गः मुखमुत्तरवेदिः श्रीकृष्णेव मुखमु सन्दधात्यन्नाध्याय एव भवति यत्र खलु वा एतमुत्त्वायागमो शासते तस्मात् सर्वेद्यामेव एतच्चो दृजेति तत्पश्चा रोचति यत्रैश्वानरेणाभिप्रवर्तयति औदुम्बर्यागोशाखायामुद्वासेन ऊर्वा औदुम्बरः ीत्याहैमुदीरयति तथा वेवास्मादित्यो वृष्टिम् येच्छति ता वनिता जन्मनायन्ते विद्याभिः समप्रईमानः संराक्षं स्वराः धर्मप्रवृद्धः भावीरोत्वाजिना अशोकर्वार्गिषः इच्छति इत्रोत्व्या सेदान नमाह्य गुरुः एवम् वेद इत्रेन्नामना ब्रह्मादिना वन्दति यो वयस्य आगम संगता रामाम वचरति पुण्यआत्मैतस्मिन् गावयते एतस्य प्रिये, प्रिये, प्रिये समर्थयति कीतिरस्य पूर्वागच्छति गायत्री दे देवेभ्योपाक्रामत तान् देवार्गेणैवानुव्यवहन् प्रर्गेनाप्नुवन् ना, ृणक्ति गायत्रीप्रवृत्तः नीयमाने मार्दन्वदन्तः सारस्वतो विष्यन्दमानः मैत्रशिनो गृहीतः ते जद्यतो वायो ह्रियमाणप्रजापतिः ह्रूयमानोवाघृतः एवं वेदवादिनो यन् ब्रह्म यमाहुतिन्नाश्नुते कस्मादेशोच्ये वाचम् ददाति तस्मादश्नुते प्रजापुर्वा एषदादशितः यत्प्रवर्ग्यः यत्प्रागवकाशेभ्यः तेन प्रजा यदोर्ध्वकाशेभ्यः देनान्नमसुजता अन्नम् प्रजापतिः प्रजापतिर्वामीषा भूत्वा प्रथमेहं प्रवच्यते यद्वितीयेऽहम् रोचने भूत्वा देवानेति यत् तृतीयेऽहम् रोचने वायुभूत्वा प्राणानेदि यत् त्रिहम् रोचते आदिश भूत्वा रश्मीयेदि यत्पञ्चमेऽहम् रोचते चन्द्र भूत्वा नक्षत्राण्येरि यत् षष्ठेऽहम् रोचते तद्भूत्वा संवत्सरमेरि यत्सप्तमेऽहम् रोचते भूत्वा शक्वरीमेदि यदशमेहम् प्रवृच्यते बृहस्तृत् भूत्वा गायत्रीमेदि यन्नमेहम् प्रवृच्यते पित्रा भूत्वा त्रिवृमान् लोकानेति यद् शमेहम् प्रवृच्यते तृणो भूत्वा विराजमेति भूत्वा दृष्टि भवेति यद्वाशेहन् रोचते सोम भूत्वा सत्यामेति यत्पष्टात् वसदाम् रोचते तस्मादितवाङ्गमान् लोकागुष्टपन्येति यदु करिष्टात् प्रसदाम् रोचते तस्मादनु दोर्वाङ्गमान् लोकागुष्टपन्येति एवम् वेद ओम् शान्तिः इति आरण्यके पञ्चमः प्रश्नः समाप्तः